्रह्मणे नमोस्तग्निरे नमपृषव्ये नमो नदीभ्यः नमो वाचे नमो वाचस्पतये नमो, नमो, नमो, नमो विष्णवे मृहते करोमि ओम् शान्तिः शान्तिः शान्तिः सह वै देवानाञ्चासुराणाम् च यज्ञौ प्रददावास्ताम् वैज्ञ स्वर्गम् लोकमे वयमेनेष्या वैर्ते सुराजपसैवा ब्रह्मचर्येण तपसैव देवास्ते सुराम यज्ञस्त्यन प्राजानि गुस्ते पराभवन्तेन स्वर्गल् लोकमायन् देवा स्वर्गल् लोकमायन्न पृथदेनालरान् पराभावयन् पृषदा वैयज्ञा वेदिना नुपवेदना यत्किञ्च ब्राह्मणानि ज्ञापवेत्येव दत्तस्माहात्यज्ञापवेत्ये वा यम् वासो वा दक्षिणदु भवेय दक्षिणम् भाववृत्तदेव सत्ते सव्यज्ञापवेदमे सदेव रक्षाकम् वागे तवोग्रमतिष्ठन् दलान् प्रजापदलफरेण वा मन्त्रे वृणेतादित्यो तान् प्रजापजलेष्ठन्त रक्षागस्यादित्यं योषयन्तयाफस्तमन्वगातानि भवागेतानि रक्षाकम् त्रिगायत्रिणाभिमन्त्रेणाम् वदान्वागे ब्रह्मभागिनः पूर्वाभिमुखाः सन्ध्या यत्रयाभिमन्त्रिता आपमो द्वम् विक्षिपन्ति ता वेता आपो वज्रीभोत् तानि रक्षागम् देहारुणे द्वीपे प्रक्षिवन्ति रक्प्रदक्षिणम् प्रक्रमन्दितेरवानमवधोऽन्वन्त्यन्दमस्त्यन्तमादित्यमभिध्यायम् कुर्वन्णो विद्वान् सकलम् भद्रवश्मेषा वालित्व ब्रह्मे ब्रह्मैव सम्ब्रह्माप्येदिज एवम् वेद यद्देवादेवनम् देवादश्च कर्मा वयम् आदित्यास्तस्माहान् मामञ्च तत्तस्तत्तेन मामिता देवाजीवनकाम्यायद्वाचानृतमोदिमा तस्मान्नैहवम् च सविश्वे देवाः सकोषसः ऋतेन द्यावापृथिवी रतेनस्वती नः इन्द्राग्ने मित्रावरुणौ सोमो धाता बृहस्पतिः येनोजन्द्रेण सौविधन्यकृतमारिमा सजातशकंसातजांसा जायश्चकंसा दुतवाकनीयतः अनादृष्टम् देवकसञ्ज्ञस्मात् तपस्माञ्जातवेदो मम मध्ये मनसा भावुभ्या मोरुभ्यामक्षेभ्याकं कृतम् जगृमा वयम् अग्निमातस्मादेन सोगारिघमत्यप्रमुदान्य दुष्कृता येन त्रतो अन्नवान्यत् बभूवजेन सूर्यम् तमसोऽजर्ममोच येनेन्द्रो विश्वाजहादराजेस्तेनाहञ्ज्योतिरा ज्योतिरानशानाहाक्षि यद्बुधे यमप्रदेत्तम् मयेह येन यमस्य निधिनाचरामि यन्मयि माता यदा पेडयदन्तरिक्षम् यदा तदाक्रामामित्यते देवा जाता यदा पिवम् मे ऋणदत्त्वायामि त्वन्नो तत्त्वन्नो अग्ने त्वमग्ने अयासि यत देव्यञ्जनमहम् बहोवादित्संवादम् जगरजनेभ्यः अग्निर्मादस्मादिन्द्रश्चरम् विधानो प्रमुञ्चदा यद्धस्ताभ्याम् जकरगुद्भ्याक्षाणाः मग्नमुपचिह्मानः अग्रम् पश्चाजराटभृक्ष्यनुदत्ता वृणानि अग्रम्बश्चे लाटभृत्तमनुदत्तमे लोकेलाय अपदे वरुणदत्वा यामि त्वन्नो अग्ने ष्मनागजो दूराद्दूरमजीजतम् पर्यक्ष्मजीजते कृत्यारगतिम् चनयोस्मत्समर्च्छादैतमस्मै पृथुवामजेंसानुपुंसाभ्याद्घनेणानुघनेन च एनान्योस्मत्समर्च्छादैतमस्मै पृतु वामजे संवर्तता वयसादन्तनोभिरयम् विमणसाधकम् शिवेन ष्टा नो अत्र विदधातु राष्टाग्नेः सदर्प्रतीकोस्तयो निरेधे घृतम् वेत्त्वामसुजागव्यम् विदेव पुत्रमभिरक्षदाम् मादेवा आस्मादिदेशर्म विश्वे देवाघट्ट्यसार्जभिषञ्जनः आदेर्वादस्वदुच्छना अग्नेपवस्वस्वपास्मे वर्तसुवीर्यम् वैपोषम् अग्निर्डः पवमानः पाञ्चजन्यः पुरोहितःगजम् अग्ने जातान् प्रणुदानः सपत्रान् प्रत्यजाताञ्जातवेदोदस्व अस्मे देशुमनाहेणच्छन्मन्दे श्यामत्रिवरूथ उद्भौ समसा जातान् प्रणुदानस्तपत्रान् प्रत्यजातान् जादवेदोदस्व अधिनाप्रोदृपणस्य मानावयज्ञस्याम प्रणुदानस्तपत्नान् आज्ञेयो नाभिघापुंसदि काकस्त्वम् वृत्रहन्तः बस स्वस्मभ्यमाभरा आज्ञेयो नाभिदातजतमानो यश्च निष्ट्यः यम् समिधम् गत्वाऽपि जध्वजे यो न शपादशपदो यश्च न शपदशपादस्मै सर्वम् पावकम् समोहता यो नः शपत्नो योर्णामर्ताभिदेवा विद्मसेव प्रक्षायतोमादस्योच्छेदकिञ्चन यो सर्वागस्ताहन्वेशयेमाम् अस्मभ्यमरादीयाद्योद्वेषाद्योऽस्मान्यप्साः च सर्वाकस्तान्मश्मशाकुरु स्वकंसिलम् वे ब्रह्म सकंसिलम् वेर्याम्बलम् स्वकंसम् क्षत्रम् वेष्म्यस्याहमस्मि पुरोहितः बाहुपतिरमुद्वर्चोत्सो बलम् दक्षिणामि ब्रह्मणा मित्रानुन्नयामि स्वाहा पुनर्मः पुनरायम् भागात् पुनश्चक्षः पुनः श्रोत्रम् भागात् पुनः प्राणः पुनराहूतम् भागात् पुनश्चेत्तम् पुनराधीनम् भागात् वैश्वानरो मेध्यस्तनोपा अपबाधताम् दरितानि ्यात् वैष्वानः पवित्रैर्यत्सङ्गरम् अनायाजमानो यजत्रय नोत्स्वामि अवीयत्रिविचतौ नाम तारगे रेहामेतद्बद्धकभोदनम् रेष्मलोकान्कृतिबन्धान्मुञ्जातिबद्धकम् योनेरिव प्रच्युतोगर्भः सर्वान् पथोनुष्व सप्रजानम् प्रगर्भे च विद्वान् प्रजापयस्य अस्माभिद्दत्तम् जलः परस्तादच्छन्तमनुजरेमन्दनम् वेगेवरम् द्रिये राम् दत्तम् विद्यमाले गैदप्रयच्छाद्दाेच्छक्नपाकुन्तस्वर्गे राम् आरभेण्डभे तस्मै गोत्र एकजागा यदन्तरिक्षम् पृथिवे मुदत्यान् पितरम् वारयेगम् शिवाज्ञादस्वादेन सोगालिखपत्यपुन्नो मेषायानित्रम् जातान्तरिक्षभिजस्तयेन यौन्नः पिता विषयाच्चम्भवालिजामि मित्त्वा मामित्सि लोकात् यत्र दुहार्दुतो अश्लोणाङ्गेन कृता स्वर्गेन कृपश्चेण पुनरञ्जपुत्रम् यद्देवानाम् चक्षुष्या गो अस्ति कृणोतु यदन्न वर्मिवुधा विरूपम् बालो विरन्नमविम् चक्षुष्यालो अस्ति यदेवविन्दप्रतिनग्राहमद्यम् बातस्पादृणम् कृणोतु मनसा वाचा कृतमेनः कदाचना सर्वस्मात्तस्मा यथा स्तेज कोस्माण्डान्द्रद्धयामि कालुजात्रोदय नारे पदस्यामेपश्य ने वादे वैरनयल देवे राज्यन्स्मानिष्ठजे नो द्रोणहत्यायास्तस्माद्वैतम्भूयात् पूतो लोकान् समश्रुते ैव भ्रूणैवत्यास्मा उच्यते यावेन दीक्षा दीक्षतयेतैस्तरं वत्सरन्दे क्षिभवं वत्सरा देवात्मानं क्षुत भव ्रात्रेक्षुत भवति चुतर्विकंशजर्थमासाः संवत्सरः संवत्सरा पाणम् बुनेदे द्वादशरात्रेक्षिणः भवति द्वादश मासा देवात् पाणम् बुने दे षड्रात्रेक्षिणा भवति षड्वादवः संवत्सरः संवत्सरा देवात् पाणम् बुने देजस्ररात्रेक्षिणा भवति त्रिपदा गायत्री गायत्रिया देवात् पाणम् बुने दै न भागम् नवस्नेयाम् न श्रियमपेक्ष श्चाक्षा वैश्चेप्यद्धरेतद्वान् हवे प्रत्येकस्तप्यमानान् ब्रह्म स्वयं ब्रह्म यज्ञा पश्यन्तमाहरन्ते यत्सामानतो यद् पुराणायल्पान् भवन्तनो देवाः स्वर्गम् लोकमाय ब्रह्मणः सायुज्योऽ गच्छन् पञ्चमादे महायज्ञा सति प्रदायन्ते सन्धिष्ठन्ते देवयज्ञ मनुष्यज्ञ ब्रह्म यज्ञैरज्ञाजुहोत् कपि समिथं तद्देव यज्ञः सन्धिष्ठते पुत्रिभ्यः स्वधागरोत्यर्प्यत् पुत्रयज्ञः सन्धिष्ठते भूतेभ्य तद्भोधयज्ञः सन्धिष्ठते ब्राह्मणेभ्यो नन्दष्ययज्ञः सन्धिष्ठते स्वाहाध्यायमधी पुराणानि कल्पान् गासा न ब्राह्मणानि पुराणानि कल्पाङ्गासाधकम् मेजा तद्देवागस्तर्भेण ब्रह्मवर्तेन च तर्पयन्ति ्रह्म यज्ञेण यक्षवास्ताक्षुरेनादिघे श्रोत्रे हृदय बालभ्येण रामौ प्रोक्तक्षुरेनाजि श्रोत्रैमालभदे ब्राह्मणानिकासान् पुराणानि शरदमेव ब्रह्मगुरुते दक्षिणात्तरोपाणि पादो कृत्वाीं विद्यां देजा त्याहेद्वैवाच्यञ्जदेव वाचस्सत्यञ्जत्प्रायं प्रार्थित्रे गायत्रेन्द्रो न वानगुन्दृत प्रज्ञात एव प्रतिपदासम् स्वाध्यागमधीयदिपानगम् वेदेह स्माः शौचान् भेजमुदारण्ये मलभुतवागो चष्ठन् मृतम् वृजन् मृदाधीनगानोऽधीते स्वाध्यागन्तमस्वी मन्या भवति च एवम् विद्वान् स्वाध्यायमधीते नमो ब्रह्मणे नमोऽस्त्वज्ञे नमो पृशव्येन नमोषधेभ्यः दे मध्यन्दिने मर्मलमधी दासोकलपामीढा यो मनस्तस्मात्तरभ्युक्ता चित्रम् देवानामुदगादने कञ्चक्षुर्मित्रस्य वरुणस्याग्नेः प्राज्ञा वाक्षकम् सूर्य आत्मा जगतश्च प्राक् सा स्य वा एतस्य यज्ञस्य मेघो वृद्धानं विद्यदग्निर्पगं हविस्तनपकारं विद्वान् विद्योतिपमानेस्वाद्गमरे तपये स्वाद्गयचुत्तरनागगं रोहत्युत्तमसमानाराम्यावन्त माम् वित्तस्य पूर्णात्त स्वर्गम् लोकम् जयदतावन्दम् लोकम् जयदि भूयागुन्दम् च क्षय्यम् चा मूढन् मृत्यम् तस्य वा एतस्य यज्ञस्य द्वावनध्यागो यदात्मासु जगद्देशः समर्थ्यर्थैवतानि यगेवम् विद्वान् महारात्र उदः स्विते प्रजग्रस्तिष्ठन्नासीनश्यगानोरण्ये ध्यागमथीते सर्वान् लोकान् ते सर्वान् लोकानर्णानुसञ्जलेक्ता परस्मेग्रस्पृतीये लोके अर्णास्यामः ेन सर्वाणा ये यज्ञं मे जातं पाप्मा जग्राहतं देवाहुदेव्यपात्मानमपाहुदीनां यज्ञेन यज्ञस्य दक्षिणा दक्षिणानां ब्राह्मणेन ब्राह्मणश्चन्द्रश्चन्द्रा स्वाध्यायेनापहत पात्मा स्वाध्यायो देव विभ्रह्मा एतत्त ुक्ता सखायण्डस्य पाठ्यविभागो अस्ति शृणोत् प्रपेदकृतस्य पन्थामहितस्मात् भवत्यस्य सायुज्यम् गच्छति च देशाभ्युक्ता अर्वानुत वा पुराणे वेदम् विद्वांसमभितपदन्ति नित्यमेव ते परिवदन्ति सर्वेयन् च हि यावै देवतास्ताः सर्वा वेदविधिब्राह्मणे सन्ति तस्मात् ब्राह्मणेभ्यो वेदविद्योदिवेदि वै नमस्कुर्यान्नास्वीलङ्गेतये देवता एव देवता रिच्यदी बवा यजप्रे परिच्यते यो याजयति प्रति वा गृह्णादि याजयत्पात्रम् वा गावित्रेङ्गायत्रीवादिरेतिबलो दक्षिणावरेणैव वरज्ञ स्मृणोत्यात्पाहि वरः गृहे हवागेण शन्दागम् सुयोगाजे ऋषगेण यज्ञकृता याजयेत्सौरण्यम् परेत्य सुयोजो देशे स्वाध्यायमेव नीनस्यानशनन्दे ख्यास्थानमुपसदादनगम् सत्या वाग्योर्म प्राणोऽस्तामाध्यायस्स वागेण यज्ञ प्राणदक्षिणोऽनन्ददक्षिणसमर्थतरः सतिधाविकीर्णे प्रविशेत्या ब्रह्मवादिना वरदप्राणेन बृहस्पति ब्रह्मवर्तते नाग्मेवेदेन सर्वेण प्रायश्च्यगिरेमावास्यां प्रणेयापदमासागद्ययाज्ञश्चपघादं जहोतिकामावगीर्नोऽस्नमगीर्नोऽस्वाद्रग् स्वाहेत्यमृतमेवात् पन्धत्व प्रयताञ्जलिमन्त्रेण समेन्द्रः समृहस्पतेः यमग्निस्विञत्वायुजातेन चायुष्पन्दरास्मै प्राणाजम् पुनो चात्मायु वरः भवद्ये भुव प्रवद्य स्वप्रभद्ये स्वप्रभ्ये ब्रह्म प्रभ्ये ब्रह्मघोशं प्रवद्ये प्रवद्ये ब्रह्म प्रवद्ये परे मृतो परे मृतो ब्रह्मणा ब्रह्मणाहं जैरु ब्रह्मोत्तराहनुकरण ग्नौ प्रमेयते नास्व प्रमेयते नानवत्य प्रमेयते नग्वान् ध्रुवश्चक्षित्वं भूता नाम र्यावर्तन् दे नमस्ते नमः सर्वन्दे नमो नमः शिशुकुमाराय नमः नमः प्रा चे द्विजयाश्च देवस्याम् प्रतिवदन् देदाभ्यश्च न मौ नमो दक्षिणायै द्विषयाश्च देवदा वेदस्याम् प्रतिवदं देदाभ्यश्च न मौन मत्प्रदेशेयाश्च देवता वेदस्याम् प्रतिवदन् देदाभ्यश्च न नमो धराय ऋषेयाश्च देवता एतस्याम् प्रियवसन्देताभ्यश्च न मो नमोभान्तरायै ऋषेयाश्च देवता एतस्याम् प्रियवसन्देताभ्यश्च न भो नमो गङ्गायमुनयाम् मध्ये एव सन्धिप्रसन्नात्मानश्चिरम् दीपितम् मध्ययन्ति नमो गङ्गायमुनयोर्मुनेभ्यश्च न भो नमो गङ्गा यमुनयोर्मुनेभ्यश्च नमः ्रह्मणे नमो अश्वर्गरेण पृथिव्येण ममोषधेभ्यः नमो वाचे नमो वाचस्पदये नमो विष्णवे कलौमि ओम् शान्ति त्रिः त्रिःशान्तिः ओ